गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायम् 27 सेवेन् तार्क्ष्य उवाच कथम् प्रेदा वसन्त्यत्र कीदृग्रूपा भवन्ति ते महाप्रेदापिशाचाश्च खैक् खै कर्मफलैर्विभो सर्वेषामनुकम्पार्थम् ब्रूहि मे मधुसूदन प्रेदत्वान्मुच्य देयेन दानेन च शुभेन च तन्मे कथय देवेश मम चेदिच्छसि प्रियम् श्रीकृष्ण उवाच साधु पृष्टम् त्वया तार्क्ष्यमानुषाणां हिताय वै शृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् गुह्यगुह्यतरम् ह्येदन्नाख्येयम् यस्य कस्यचिद भक्तस्त्वम् हि महाबाहो तेनते ते कथयाम्यहम् पुरात्रेदायुगे तादराजास्ये बभ्रुवाहनः महोदयपुरे रम्ये धर्मनिष्ठो महाबलः यज्वादानपदि श्रीमान् ब्रह्मण्यः साधुसम्मदः शीलाचारगुणोपेदो दयादाक्षण्यसंयुधः प्रजापालयते नित्यं पुत्रानिल महाबलः क्षत्रधर्मरथो नित्यं स दण्ड्यान् दण्डयन्नृपः स कदाचिन्महा बाहु ससैन्यो मृगयां गदः वनं शार्दूल नानावृक्षसमन्वितं शार्दूलशतसञ्जुष्टं नाना पक्षिनिनादिदम् वनमध्ये तदा राजा मृगं दूरात् अपश्यत तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च बाणमादाय तं तस्य सवने दर्शनं ययौ कक्षे तत्सोणि तत्रावात्स राजानुजगाम तम् तदो मृगप्रसङ्गेन वनमन्यद्विवेशसः क्षुक्षामकण्डो नृपदिश्रमसन्तापमूर्च्छितः जलस्थानं समासाद्य साश्ववावगाहद पीत्वा तदुदकं शीतं पद्मगन्धाधिवासितं तद उत्तीर्य तद उत्तीर्य सलिलाद्विमलाद् बभ्रुवाहनः न्यग्रोधवृक्षमासाद्यशीदच्छायं मनोहरम् महाविडपिनं हृद्यं पक्षिसङ्खादनादिदं वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितं तं महातरुमासाद्य निशसादमहीपदिः अधप्रेतम् ददर्शासौ क्षुतृष्णा व्याकुलेन्द्रियम् उत्कचम्मलिनम् कुब्जम् निर्मांसम् भीमदर्शनम् स्नायुबद्धास्तिचरणम् धावमानमितस्ततः अन्यैश्च बहुभिप्रेतैः समन्तात्परिवारितम् तम् दृष्ट्वा विकृतम् घोरम् विस्मितो बभ्रुवाहनः तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः अब्रवीत्सत् तदा तार्क्ष्यप्रेतराजो नृपं वजः प्रेदभावो मया त्यक्तप्राप्तोऽस्मि परमां गतिं त्वत्संयोगान्महाबाहो नास्ति धन्यतरो मम नृपदिरुवाच कृष्णवर्णकरालास्य त्वं प्रेद इव लक्ष्यसे कथयस्व मम प्रीत्या यधैवं चासि तत्त्वदः तथा पृष्ट स प्रोवाच सकलं स्वकं प्रेद उवाच कथयामि नृपश्रेष्ठसर्वमेवादितस्तव प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि वैदिशं नाम नगरं सर्वसम्बत्समन्विधम् नाना नानाजनपदाकीर्णं नानारत्नसमाकुलं नानापुण्यसमायुक्तं नानावृक्षसमाकुलं तत्राहम्यवसम्भूयो देवार्चनरतः सदा वैश्यो जात्या सुदेवोऽहं नाम्ना विदिदमस्तु हव्येन तर्पिदा देवा कव्येन पितरस्तथा विविधैर्धानयोगैश्च विप्रा सन्दर्पिता मया आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः दीनानादविशिष्टेभ्यो मया दत्तमनेकधा तत्सर्वं विफलं तादमम दैवादुपागदम् यथा मे निष्फलं जातं सुकृतं तद्वदामि नमेस्ति न मेस्ति सन्तदिस्ताद न सुकृन्न च बान्धवः न च मित्रं हि मे तादृ्यकुर्यादौर्ध्वदैहिकम् प्रतत्त्वं सुस्थिरं तेन मम जातं नृपोत्तम एकादशं त्रिपक्षं च षण्मासिकमधाब्धिकं प्रदिमास्यानि चान्यानि एवं श्राद्धानि षोडश यस्यैतानि न दीयन्ते भूपते प्रदत्तं सुस्थिरं तस्य दत्तै श्राद्धशतैरपि एवं ज्ञात्वा महाराजप्रे दत्त्वा दुद्धरस्व मां वर्णानां चापि सर्वेषां राजा बन्धुरिहोच्यते तन्मान् तारय राजेन्द्रमणिरत्नं ददामि ते यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम तथा कार्यं महाबाहो कृपा यदि मयीष्यते आत्मनश्च कुरुक्षिप्रं सर्वमेव सर्वमेव ऊर्ध्वे दैहिकं नृपतिरुवाच कथं प्रेदा भवन्तिह कृतैरप्यौर्ध्वदैहिकैः पिशाचाश्च भवन्तिह कर्मभि कैश्च तद्वद प्रेद उवाच देवद्रव्यं च ब्रह्मस्वं स्त्रीबालधनसञ्जयं ये हरन्ति नृपश्रेष्ठप्रेदयोनिं व्रजन्ति ते तापसीं च सगोत्रां च अगम्यां ये भजन्ति हि भवन्ति महाप्रेदा अम्बुजानि हरन्ति ये प्रवालवज्रहृदारो यजवस्त्रापहारकाः तथा हिरण्यहर्तारसंयुगे सन्मुखागताः क्रुधग्नास्तिकारौद्रास्तथा साहसिका नराः पञ्चयत्नविनिर्मुक्ता महादानरताश्च स्वामिद्रोहकरा मित्रब्राह्मद्रोहकराश्च ये तीर्थपापकरा राजन् जायन्ते प्रेतयो नयः एवमाद्य महाराजजायन्ते प्रेतयो नयः राजोवाच कथं मुक्ता भवन्तिहप्रेतत्वात्त्वं च तेऽपि च कथञ्चापि मया कार्यम् ऊर्ध्वदैहितमात्मनः विधिना केन तत्कार्यं सर्वमे दद्वदस्व मे प्रेद उवाच श्रृणुराजेन्द्रसङ्क्षेपाद्विधिं नारायणात्मकं सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसङ्गतिः प्रेदयोनिविनाशाय भवन्तीति मया श्रुतम् अभो वक्ष्यामि ते विष्णुपूजाम् प्रेदत्वनाशिनी सुवर्णद्वयमाहृत्य मूर्तिम् भूमप्रकल्पयेद दे। नारायणस्य देवस्य सर्वाभरणभूषिताम् पीतवस्त्रयुगाच्छन्नाम् चन्दना स्नापये द्विविधैस्तोयैरधिवास्य यजेत्तदः पूर्वे दुःश्रीधरं देवं दक्षिणे मधुसूदनं पश्चिमे वा न मं देवमुत्तरे च गदाधरं मध्ये पितामहं पूज्य देवं महेश्वरं पूजये च विधानेन गन्धपुष्पादिभिः पृथग तदप्रदक्षिणीकृत्य अग्नौ सन्तर्प्य देवताः कृतेन दध्नाक्षीरेण विश्वान् देवांस्तथा नृप ततस्नादो विनीतात्मा यजमानः समाहितः नारायणाग्रे विनीतात्मा क्रोध लोभ क्रोधलोभविवर्जितः श्राद्धानि कुल्या सर्वाणि वृषस्योत्सर्जनं तथा त्रयोदशानां विप्राणां वस्त्रच्छात्राण्युपानहौ अङ्गुलीयकमुक्तानि भाजनासनभोजनैः सन्नाश्च सोदकादेयखडप्रेदहिताय वै शय्यादानमधो दत्त्वा कटम् प्रेतस्य निर्वपेद नारायण नायेदि सन्नाम सम्पुटस्थम् समर्चयेद एवम् कृत्वाथ विधिवत् शुभाशुभफलं लभेद राजोवाच कथम् प्रेतकटम् कुर्याद् दद्यात् विधानदः ब्रूहि सर्वानुकम्पार्थं कडं प्रेद विमुक्दिदं प्रेद उवाच साधु पृष्ठं महाराज कथयामि निबोधते प्रेतत्वं न भवेद्येन दानेन सुदृढेन च दानं प्रेतखं नाम सर्वाशुभविनाशनं दुर्लभं सर्वलोकानां दुर्गदिक्षयकारकम् सन्दप्तः डकमयं दुखडं विधाय ब्रह्मो शकेशव युदं सह लोकपालैः क्षीराज्यपूर्णविवरं प्रणिपत्यभक्र्या विप्राय देहि तव दानशदै किमन्यैः ब्रह्मा मध्ये तथा विष्णुशङ्करशङ्करो प्राख्यादिषु च तत्कण्ठे लोकपाधान् क्रमेणदु सम्पूज्य विधिवद्राजन्धूवैकुसुमचन्दनैः ततो दुग्धाज्यसहितम् खडं देयं हिरण्मयं सर्वदानाधिकञ्चैदन्महापादकनाशनम् कर्तव्यम् श्रद्धया राजन्प्रेतत्वविनिवृत्तये श्रीभगवानुवाजा एवं सञ्चल्षस्तस्य प्रेदेन नियदात्मनः सेनाजगामानुपदं हस्त्यश्वरथसम्भुलाः तदो बले समायादे दत्वा राज्ञे महामणिं नमस्कृत्य पुनः प्रार्थ्यप्रेदो दर्शनमीयिवान् तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ स्वपुरं स समासाद्य सर्वं तत्प्रेदभाषितं चकारविधिवत्पक्षिन्ना ऊर्ध्वदेहातिकं विधिं तस्य पुण्यप्रदानेन प्रेदो मुक्तो दिवं ययौ श्राद्धेन परदत्तेन गधप्रेतोऽपि सद्गतिं किं पुनः पुत्रदत्तेन पिता यादि चाद्भुतम् इतिहासमिमं पुण्यं शृणोदि श्रावयेच्छयः न तौ प्रदत्त्वमायात पापाचारयुतावपि इति श्रीकारुडे महापुराणे उत्तरखण्डे द्वितीयांश्ये धर्मकाण्डे प्रेदकल्पे श्रीकृष्णगरुडसंवादे बभ्रुवाहनप्रेदसंवादे प्रेदत्वहेतु तन्निवृत्त्युपायनिरूपणं नाम सप्तविंशोऽध्यायः ओम् अध्यायं 28 गरुड उवाच सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन प्रतत्वान्मुच्यते येन दानेन सुकृतेन वा श्रीकृष्ण उवाच शृणुदानं प्रवक्ष्यामि सर्वा शुभविनाशनम् सन्तप्तःकमयं घटकम् विधाय ब्रह्मेशकेशवयुतम् सह लोकपालैः क्षीराज्यपूर्णविवीरम् प्रणिपत्यभक्त्या विप्राय देहि तव दानशधैः किमन्यैः गरुड उवाच किमे कथितं देव वदस्व मे आमुष्मि किं देव देव समयादनु संसारे साधुमे नादब्रूहि कृत्यम् जनार्दन यथा कार्या नर सम्यक् क्रिया चैवर्ध्वदैः कथम् प्रेदा महाकाया रौद्ररूपाभयानकाः कम् भवन्ति सुरश्रेष्ठकर्मभिक्कैः शुभाशुभैः पिशाचाः सम्भवन्तीह कस्येदं कर्मण फलम् तन्मे कथय देवेश अहमिच्छामि वेदितुं भूम्यां प्रक्षिप्यदे कस्मात् पञ्चरत्नम् कुतो मुखे अधत्ता च तिलदर्भापादौ याम्यां व्यवस्थिताः किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यदे किमर्धं स्मर्यते विष्णुविष्णुसूक्तञ्च पठ्यते किमर्धं पुत्रपुत्राश्च तस्य तिष्ठन्ति जाग्रतः किमर्धं दीपदानं च किमर्धं विष्णुपूजनं किमर्धमाधुरोदानं ददाति द्विजपुङ्गवे बन्धोन्मित्राण्यामित्रांश्च क्षमाभयदि तत्कथम् तिलालोहम् हिरण्यम् च कार्पासं लवणम् तद्धा सप्तधान्यं क्षिदिर्गावो दीयते केन हेतुना कथम् च म्रियते जन्तुर्मृतस्य च कुतो गदिः अधिवाहशरीरं च कथं विश्रमदे तदा शवस्कन्धेवहेत्पुत्रो वह्निदा च किमर्धं देवदेवेश आज्येनाभ्यञ्जनं गुदः यमसूक्तं किमर्धं च उदीचीं दिशमाहरेद पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणं यवसर्षपदुर्वाश्च पाषाणे निम्बचर्वणं वस्त्रं नरश्च नारीज विदध्यादधरोत्तरम् अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह नवकानि च पिण्डानि किमर्थं वितरेत्सुतः किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृण्मये काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पदे निशायां दीयते दीपो यावदब्धं दिने दिने दाहोदकं किमर्धं च संवादस्वजनैः सह भगवन्नधिवाकस्य नवपिण्डैस्तु किं भवेद। कथं देव पितृभ्यश्च वाकस्यावाहनं कथम् इदं च क्रियते देवकस्मात्पिण्डं प्रदापयेत् किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् अस्ति सञ्चयनं चैव शय्यादानं किमर्थकम् द्वितीयेऽह्निकुतस्नानं चतुर्धे साग्निके द्विजे दश मे मलस्नानं कार्यं सर्वजनैः सह कस्मात् तैलोद्वर्तनं च स्कन्धवाकान् गृहं नयेद् तैः समुद्वर्तनं चाभिदद्युस्तश्रये दशमेहनीयः पिण्डस्थं दद्यादा मिश्रेणदु पिण्डं चैकादशे कस्मात् वृषोत्सर्गकथं भवेद् श्राद्धानि षोडशैतानि अग्धं यावत् चोदके वद अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् दिने दिने च दातव्यं खडान्नं प्रेदधृक्तये प्राप्ते काले च अनित्यो मानवप्रभो। प्रभो छिद्रं तु नैव पश्यामि कुतो कुतो गच्छन्ति भूतानि पृथिव्याभो मनस्तथा तेजोवधस्वमेनाथवायुराकाशमेव च वायवश्चैव पञ्चैदे कथं गच्छन्ति चाक्तये जोपमोहादय पञ्चशरीरे चैव तस्कराः कृष्णा यान्ति जनार्दन पुण्यं वाप्यथवा पुण्यं यत्किञ्चित् सुहृतं नष्टे देहे कुदोयां यान्तिदानानि विविधानि च सपिण्डनं किमर्धं च पूर्णे संवत्सरेऽपि च प्रेतस्य मेलनं सार्धं कैसमं समं तत्र को विधिः ये दग्धा ये त्वदग्धाश्च पतिधा यानि चान्यानि भूतानि तेषामन्दे भवेच्च किम् पापिनो नो ये दुराचारमुद्गलत्वं च ये गदाः आत्मकादि ब्रह्मकाजस्तेयि विश्वासखातपः कपिलां ह्यप्पे चूद्रो यः पढेद्वैदिकाक्षरं तारयेद्वा ब्रह्मसूत्रं कागदिस्तस्य माधव विप्रस्य ब्राह्मणी भार्या सङ्गृहीता यदा भवेद् तस्मात् पापाच्चभिदोऽहं तन्मे वद जगत्पदे सर्वमे तन्मया पृष्टो वदलोकहिताय वै इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदहिककर्मकालक्रियमाणनादानादिफलप्रश्रनिरूपणम् नामाष्टाविंशोऽध्यायः ओम् अध्यायम् ट्वेण्टि श्रीकृष्ण उवाच साधु पृष्टं त्वया भद्रमानुषाणां हितायवै वै शृणुष्वहितो भूत्वा सर्वमे वौर्ध्वदैहितं कम। कम्यग्विभेदरहितं श्रुति स्मृति समुद्धृतं जन्नदृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः गुह्यागुह्यतरं वत्सनाख्यातं कस्यचित् क्वचिद भक्तस्त्वं हि महाभागसर्वं ते कथयाम्यहम् अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च येन केनाप्युपायेन कार्यं जन्मसुतस्य च तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते दासपुत्रेण कर्तव्यो देहपौत्रेण पावकः तिलैर्दर्भैश्च भूम्यां वै कुडीदादुमदी भवेद् पञ्चरत्नानि वक्त्रे दु यणजीवप्ररोहदीं लिप्या तु गोमयैर्भूमिं तिलां दर्भांश्च निःक्षिपेद तस्यामे वादुरोमुक्त सर्वं दहति पादकम् दर्भमूलीनयेत्स्वर्गं संस्थितं नात्र गर्भांस्तत्र हि ये भूम्यां तिलयुक्ता संशयः सर्वत्र वसुधापूता यत्र लेपो न विद्यते यत्र लेपस्थितस्तत्र पुनर्लेपेन शुध्यति यादुधानापिशाचाश्च राक्षसा क्रूरकर्मिणः अलिप्ते आदुरम् मुक्तं विशन्ध्येतेन संशयः नित्यहोमं तथा विप्राणां पादशोधनं मण्डलेन विना भूम्यां कुर्वन्त्येतच्च निष्फलम् आधुरो मुच्यतेनैव मण्डलेन विना ब्रह्मा रुद्रश्च विष्णुश्च श्रीर्हुदाशन एव च मण्डले चोपतिष्ठन्तस्तस्मात् कुर्वीदमण्डलम् अन्यथा म्रियदे यस्तु बालो वृद्धो युवापि वा योऽन्यन्तरं स वै गच्छेत् क्रीडदे वायुना सह मिश्रितं लोहताम्रं दु तथैव तस्मैवं वायुभूतस्य न श्राद्धं नोदक्रिया मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्यपवित्रकाः असुरादानवादैत्यास्तृप्यन्ति तिलदानदः तिलश्वेदास्तिलाकृष्णास्तिला गोमूत्रसन्निभाः ते मेदकन्दुपापानि शरीरेण कृतानि एक एव तिलद्रोणो हेमद्रोणतिलै समः तर्पणे दानहोमे च दत्तो भवति चाक्षयः दर्भामल्लोमः सम्भूतास्तिला स्वेदसमुद्भवः तृप्तास्युर्देवदानैः श्राद्धे न पितरस्तदा वियोगविधिना ब्रह्मा विश्वं चाप्युपजीवनात् सव्ययज्ञोपविधेन ब्रह्माद्यास्तृप्तिमान् पुयः अपसव्येन तृप्यन्ति पितरो दिविदेवताः अपसव्यादिदो ब्रह्मा दर्भमध्ये दुकेशवः दर्भाग्रे शङ्करं विद्यात्रयो देवा कुशे विप्रा मन्त्रा कुशावन्नितुलसी च खगेश्वरा नैदे निर्मल्यदां यान्ति क्रियमाणा पुनः पुनः कुशापिण्डेषु निर्मल्या ब्राह्मण प्रेदभोजने मन्त्रा शूद्रेषु हुदाशनः तुलसीब्राह्मणा गावो विष्णुरेकादशी खगा पञ्चप्रवहनान्येव भवब्धौ मज्जदां सदां विष्णुरेकादशी गीता तुलसी विप्रधेनवः। अपारे दुर्गस्ङ्गारे षट्पदि मुक्तिदायिनी तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसीदलाम् निवासयन्ति चैतानि दुर्गतिव्यान्तमाधुरम् अस्ताभ्यामुद्धृतैर्दर्भाैस्तोयेन प्रोक्षयेद्भुवम् मृत्युकाले क्षिपेद्दर्भानादुरस्य करद्वये दर्भेषु क्षिप्य देयसौ दर्भस्तु परिवेष्टितः विष्णुलोकं स मानवः दर्भमूरीगतो भूमौ दर्भपाणिस्तुयो मृदः प्रायच्चित्तविशुद्धोऽसौ संसारे पारसागरे गोमये नो लिप्ते तु दर्भस्यस्तरणे स्थितः तत्र दत्तेन दानेन सर्वं पापं व्यपोहति लवणं तदृशं दिव्यं सर्वकामप्रदं तृणाम् यस्मा धन्नरस्सा सर्वे नोत्कडालवणं विना पितॄणां च प्रियं भव्यं तस्मात् स्वर्गप्रदं भवेद विष्णुदेहसमुद्भूतो यदोयं लवणो रसः विशेषा लवणं दानं तेन शंसन्ति योगिनः ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च आतुराणां यदा प्राणा प्रयां दिवसुधातरे लवणं तु तदा देह्यं दारो दारस्योद्धाटनम् दिवः इति श्रीगरुडे महापुराणे श्रीकृष्णगरुडसंवादे और्ध्वदेहिककर्माणि पुत्रदर्भतिलतुलसि गोभूलेपताम्रपात्रदाना दीनामावश्यकत्वनिरूपणं नामै को नत्रिं शोध्यायः ॐ अध्यायम् तर्टि श्रीकृष्ण उवाच शृणुताक्ष्य परं गुह्यम् दानानां दानमुत्तमम् परमम् सर्वदानानां परं गोप्यम् दिव उगसाम् देयमेकम् महादानम् कार्पासम् चोत्तमोत्तमम् येन दत्तेन प्रीयन्ते भुर्भुवत्स्वरिधिक्रमाद ब्रह्माद्या देवता सर्वा कार्याच्च प्रीतिमाप्नुयुः देयं मेदन्महादानं प्रेतोद्धरणहेतवे चिरम्बस्य रुद्रलोके ततो राजा भवेदिह रूपवान् सुभगो वाक्मी श्रीमानातुल विक्रमः यमलोकं विनिर्जित्य स्वर्गं तार्क्ष्य स गच्छति गान्धिलांश्चक्षितं हेमयो तस्य पापं तत्क्षणादेव नश्यति तिला गावो महादानं महापादकनाशनं तद्वयं दीयते विप्रेणान्यवर्णे कदाचन कल्पितं दीयते दानं तिला गावश्च मेदिनी अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन पोष्यवर्गे तथास्त्रेषु दानं देयमकल्पितम् आधुरे वोपरागे चद्वयं दानं विशिष्यते आधुरे दीयते दानं तत्काले चोपतिष्ठति जीवतस्तु पुनर्दत्तमुपतिष्ठत्यः संस्कृतं सत्यं सत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये यच्चानुमोदते पुत्रस्तच्च दानमनन्त्यात्सपुत्रो वा यावज्जीवत् सौचिरम् अदिवाहस्तदाप्रेदो भोगांश्च लभदे यदः अस्वस्था तुरकाले दुदेहपादेक्षितिस्थिते दे देहे तद्धादिवाहस्य परधप्रीणनं भवेद पङ्गावन्ध्ये जगाणे जह्यर्धोन्मीलितलोचने तिलेषु दर्भान् संस्तीर्यदानमुक्तं तदक्षयम् तिला हिरण्यं च कर्पासं लवणं तद्धा सप्तधान्यं क्षिदीर्घाव एकैकं पावनं स्मृतं लोहदानाद्यमस्तुष्यद्धर्मराजस्तिलार्पणाद लवणे दीयमानेदु न भयं विद्यते यमाद कर्पा सस्यदुदानेन न भूदेभ्यो भयं भवेद तारयन्ति नरं काव्यस्त्रिविद्धाश्चैव पादकाद हेमदाना सुखं स्वर्गे भूमिदानान्नृपो भवेद हेमभूमिप्रदानाश्च न पीडा नरके भवेद सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः सर्वे ते वरदा यान्ति सप्तधा दा, सप्तधान्येन प्रीणिताः विष्णोस्मरणमात्रेण प्राप्यते परमागतिः यत् ते सर्वमाख्यातं मर्प्यैर्यागतिराप्यते तस्मात् पुत्रं प्रशंसन्ति ददातिपितुराज्ञया भूमिष्ठं पितरं दृष्ट्वा ह्यार्थोन्मीलितलोचनम् तस्मिन् काले सुदोयस्तु सर्वदानानि दापयेद दा गया श्राद्धाद्विशिष्येद दा स पुत्रकुलनन्दनः स्वस्थाना चलितश्चासौ विकलस्य पि दुस्तदा पुत्रायैर्यत्ने न कर्तव्यापितरं तारयन्ति ते किं दत्तैर्बहुभिर्दा अश्वमेदो महायज्ञकलां नार्षदि षोडशीं धर्मात्मा स नु पुत्रो देवैरपि सुपूज्यते दे। दापयद्यस्तु दानानिह्याधुरम् पितरं भुवि लोहदानञ्च दातव्यं भूमि युक्तेन पाणिना यमंभिर्मञ्जनाप्नोदिना गच्छेत्तस्य व्यश्मनि उदारो मुसलो दण्ड खड्गश्चच्छुरिका तथा एतानि यमहस्तेषु दृश्यानि पापकर्मिणां तस्माल्लोकस्य दानं दुब्राह्मणाया दुरोदेव यमायुधानां सन्तुष्ट्यैदानमेदुदाहृदं गर्भस्थाशिषभो यज युवानस्तविरास्तथा ये येभिर्दानविशेषैस्तु निर्दहेयुः स्वपादकं चुरिणश्याम शबलौ षण्डामर्का उदुम्बराः शबला श्यामदुधा ये लोहदानेन प्रीणिताः पुत्रा पौत्रास्तदा बन्धुसपोत्रा सुह्रदस्तदा दददेना दुरेदानं ब्रह्मघ्नैस्त ब्रह्मघ्नैस्तु समाहिते पञ्चत्वे भूमियुक्तस्य शृणुतस्य च यागदिः अधिवाकपुनप्रेदो वर्षोर्ध्वं सुकृतं लभेद अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयो मराः कालत्रयम् त्रिसन्ध्यम् जत्रयो वर्णा स्त्रिशक्तयः पादादूर्ध्वम् कडिम् यावत् तावत् ब्रह्याधितिष्ठति ग्रीवां यावद्धरिर्नाम्भ्ये शरीरे मनुजस्य च मस्तके तिष्ठति शानो व्यक्ता व्यक्तो महेश्वरः एकमूर्ते त्रयो भाग ब्रह्म विष्णुमहेश्वराः अहम् प्राणशरीरस्थो भूदग्राम चतुष्टये धर्माधर्मे मदिम् दद्याः सुखदुःखे कृदा कृते जन्तो बुद्धिम् समास्ताय पूर्वमर्माधिवासिताम् अहमेव तथा जीवान् प्रेरयामि च कर्मसु स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम् स्वर्गस्थं नरगस्तं वा श्राद्धे वाप्यायनं भवेद तस्मात् श्राद्धानि गुर्वीद त्रिविधानि विचक्षणः मत्स्यं कर्मं च मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनं रामं रामं च कृष्णं च बुद्धं चैव सकल्पिनं एतानि दशनामानि स्मर्दव्यानि सदा बुधैः स्वर्गं जीवः सुखं यां दिच्युदा स्वर्गा लब्ध्वा सुखं च वित्तं च दया दाक्षिण्यसंयुधाः पुत्रपौत्रायुर्धनैराढ्या जीवेयुः आदुरे च तदें विष्णुपूजाञ्चकारयेत् अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरं पूजये चुक्लपुष्पैश्च नैवेद्यैर्हृतपाचितैः तद्धा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः विष्णुर्मातापिता विष्णुर्विष्णुस्वजनबान्धवाः यत्र विष्णुं न पश्यामि तेन वासेन किं मम जले विष्णुस्थले विष्णुर्विष्णुपर्वतमस्तके ज्वालामालाकुले विष्णुसर्वं विष्णुमयं जगद वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः वयं गागो वयं राजा वयं वायुर्वयं प्रजाः वयं हेम वयं धान्यं वयं मधु वयं घृतं वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः अहं दादा अहं ग्राही अहं यज्वा अहं क्रदुः अहं कर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम् धर्मा धर्मे मदिं दद्यां कर्मभित्तुशुभाशुभैः यत्कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग धर्मे मधिमसं दद्यामधर्मेऽप्यहमेव च यादनां गुरुदेशोऽपि धर्मे मुक्तिं ददाम्यसं मनुजानां हितार्क्ष्य अन्धे वै धरणी स्मृदा तयावमत्यपापौखं विष्णुलोकं स गच्छति बाल्यत्वे यच्च कौमारे यच्च परिणतौ च यद सर्वावं ता कृतं पापं यच्च जन्मान्तरेष्वपि यन्निशायां तथा प्रादर्यन्मध्याह्ना पराह्नयोः सन्ध्यायोर्यत्कृतं कर्म कर्मणा मनसा गिरा दत्त्वा वरां सकृतपिकपलां सर्वकामेकाम् उद्धरे दन्तकाले स आत्मानं पापसञ्चयाद कावो ममाग्रतः सन्धु पृष्ठतः पार्श्वतस्तथा कावो मे हृदये सन्धु गवां मध्येव सम्यहम् या लक्ष्मी सर्वभूतानां याजदेवे व्यवस्थिता धेनुरूपेण सा देवी मम पापं व्यबोहतु इति श्रीगरुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रयधकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नामतृंशोऽध्यायः अध्यायम् 31 श्रीविष्णुरुवाच ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयं नृणाम् मत्साक्षिकं दत्तमनन्तफलदं भवेद यावद्रजप्रमाणाब्धं स्वर्गे तिष्ठति अश्वारूढाश्च ते यान्ति ददते ये आतपे श्रमयोगेना न दह्यन्ते च कुत्रचिदचि चत्रदानेन वैप्रेदा विचरन्ति सुखं पथि यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेद अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते उद्योते नैव ते यान्तिदीपदानेन मानवाः अश्विने कार्तिके वापि माके मृततिधावपि चतुर्दश्याञ्च दीये ददीपं दानं सुखाय वै प्रत्यगञ्च प्रदातव्यं मार्गे सुविषमे नरैः यावत्संवत्सरं वाभिप्रयदस्य सुखलिप्सया कुलेद्योदधिशुद्धात्मा प्रकाशत्वं स गच्छति दि। ज्योतिर्मयोसौ पूज्योऽसौ दीपदानप्रदोनरः प्राङ्मुखो दङ्मुखं दीपं देवागारे द्विजातये कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरं सर्वोपहारयुक्तानि पदान्यत्रत्रयोदश त्रयोदश यो ददादिमृदस्य जीवन्नप्यात्मभेदवे स गच्छति महामार्गे महाकष्टविवर्जितः आसनं भाजनं भोज्यं दीयते यद्विजायदे सुखेन भुञ्जमानस्तु पद्धि कमण्डलुप्रदानेन त्रिषिदपि बदे जलं भाजनं वस्त्रदानं च कुसुमञ्चाङ्गुलीयगम् एकादशाहे दाधव्यं प्रेदोद्धरणहेतवे त्रयोदशपदा निधं प्रेदस्य शुभमिच्छदा दातव्यानि यथाशक्रिया प्रेदोऽसौ प्रीणितो भवेद भोजनानि तिलांश्चैव उदकुम्पास्त्रयोदश मुद्रिकां वस्त्रयुग्मञ्जतया यादिपरां गतिम् योश्वम् नावम् गजम् वा बिब्राह्मणे प्रतिपादयेद सम किं नोऽनुसारेण तत्तत् सुखमुपाश्नुते नानालोकान्विचरदि महीषिञ्च ददाति यः यमपुत्रस्य यामादामहिषी सुगतिप्रदा ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनं तेन सम्प्री निधा सर्वे तस्मिन् क्लेशं न कुर्वते गोभूतिलहिरण्यानि दानान्याहुत् स्वशक्तितः मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृण्मयम् उत पात्रसहस्रस्य फलमाप्नोति मानवः यमदूदमहारौद्रा कराला कृष्णपिङ्गलाः न भीषयन्ति तं याम्या वस्त्रदाने कृते सदि मार्गे हि गच्छमानस्तु तृष्णार्थश्रमपीडितः कडान्नदानयोगेन सुखी भवति निश्चितं शय्या आयुधाम्बरसंयुधा हैम श्रीपदिना युक्ता देयाभिप्रायशर्मणे तथा प्रेतत्वमुक्तो सौ मोददे सह दैवतैः यदत्ते कथितं तार्क्ष्यदानमन्त्र्येष्टिकर्मजम् अधुना कथयिष्येहमन्यदेहप्रवेशनं जातस्य मृत्युलोके वैप्राणिनो मरणं मृदि कुर्या स्वधर्मेण यास्यतश्च परन्तता पा। पूर्वकाले मृतानाञ्च प्राणिनां च खगेश्वर सूक्ष्मो भूत्वा त्वसौ वायुर्निर्गच्छत्यास्य मण्डलाद् नवद्वारैरोमभीष्टजनानां तालुरन्ध्रके पापिष्ठानामपानेन जीवो निष्क्रामभिध्रुवम् शरीरञ्जपदेत् पश्चान्निर्गदे मरुतीश्वरे बादापदपदत्येव निराधारो यद्धा द्रुमः पृथिव्यां लीयदे पृथ्वी आपश्चैव तथाप्सु च तेजस्तेजसी लीयदे समीरणसमीरणे आकाशे तथा काश्य सर्वव्यापीजशङ्करे तत्र कामस्तथा क्रोधकाये पञ्चेन्द्रियाणि च यदेतार्श्यसमाख्याता देहे तिष्ठन्ति तस्कराः कामक्रोधो ह्यहङ्कारो मनसस्तत्रैव नायकः संहारकश्च कालोऽयं स्वरूपं तु निर्मिदं स्वेन कर्मणा पुनर्देहान्तरं व्याधि सुकृतैर्दुष्कृतैर्नरः पञ्चेन्द्रियसमयुक्तं सकलायैर्विश्यै सह प्रविशेत्स नवं देहं गृहे दग्धे यथा गृहि शरीरे ये समसीना सम्भवेत् सर्वधाधवः षाट्कौशिको ह्ययं कायो मादापित्रौश्च सम्भवे युस्तदा तार्क्ष्य सर्वे वादाश्च देहिनां मूत्रम्बुरीशं तद्योग ये चान्ये व्याधयस्तथा अस्ति शुक्रं तथा स्नायुदेहेन सह दक्ष्यते येषदे कथितस्तार्क्ष्यविनाश्च सर्वदेहिनां कथयामि पुनस्तेषां शरीरञ्च यथा भवेद एकस्तम्भम् स्नायुबद्धम् स्तूणाद्वयसमुद्धृतम् इन्द्रियैश्च समायुक्तम् नवद्वारम् शरीरकम् विषयैश्च समाक्रान्तम् कामक्रोधसमाकुलम् रागद्वेषसमाकीर्णम् तृष्णा दुर्ग सुदुस्तरम् लोभजालसमायुक्तम् पुरम् पुरुषसंज्ञम् ये शरीरं सर्वदेहिनां तिष्ठन्ति देवता सर्वभुवनानि च दुर्दश आत्मानं येन जानन्ति तेन राःपशव स्मृताः एवमेतन्मया शरीरं ते च दुर्विद्धम् चतुरशीतिलक्षाणि निर्मिता यो न यः पुरा उद्भिज्ञा स्वेदजाश्चैव अण्डजाश्च जरायुजाः एतत् सर्वमाख्यातं यत्पृष्ठोऽहं त्वया नः इति महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफलान्यदेहप्रवेशादिनिरूपणं नामैकत्रिंशोऽध्यायः ओम्